नारदपुराणम् उत्तरार्थम् अध्यायम् सेवेण्टिफोर् अध गोकर्णमाहात्म्यम् मोहिन्युवाच पुण्डरीकपुराख्यानम् त्वया प्रोक्तम् श्रुतम् गुरो गोकर्णस्याद्यतीर्थस्य माहात्म्यं मे समादिश वसुरुवाच शृणु मोहिनि वक्ष्यामि तीर्थम् पुण्यप्रदम् नृणान् गोकर्णाख्यं हरक्षेत्रं सर्वपादकनाशनं पश्चिमहस्तसमुद्रस्य तीरेऽस्ति वरवर्णिनि सार्धयोजनविस्तारं दर्शनादभिमुक्तिदं सगरस्यात्मजैर्देवि कनिदे भूदले क्रमाद सागरो वर्धितस्त्वारा प्लावयामास त्रीं सद्योजनविस्ताराम् सतीर्थक्षेत्रकाननाम् तादस्तन्निलया सर्वे सदेवासुरमानवाः तत्स्थानम् ता सम्परित्यज्य सख्यादिगिरिशुस्थिताः ततो गुह्यम् परम् तीर्थम् गोकर्णाख्यम् समुद्रगम् चिन्तयन्दो मुनिवरास्तदुद्धारे मदिम् दधुः तद सम्मन्द्रियते सर्वे पर्वतोपत्यकास्थितः महेन्द्राचलसंस्थानं परश्रु परशुरामम् दिदृक्षवः जग्मुर्मुनिवरा देवि गोकर्णोद्धारकाङ्क्षया समारुह्य दूतं शैलं ददृशुस्तस्य चाश्रमं प्रशान्त क्रूरसत्त्वाढ्यं सर्वर्तुषु सुखावहं फलितै पुष्पिदैर्वृक्षैर्गघनं तत्तपोवनं स्निग्धचायमनौपम्यं स्वामोदि सुखमारुदं तं तथाश्रममासाध्य ब्रह्मकोशनिनादिदं विविश्युर्हृष्टमनसो यथा वृद्धपुरःसरम् ब्रह्मासने सुखासीनम् मृदु कृष्णाजिनोत्तरे शेष्याैः परिवृतम् शान्तम् ददृशुस्तम् तपोधनम् कालाग्निमिव लोगां स्त्रीन् दग्ध्वा शान्तम् तपःस्थितम् समेत्य भृगुश्रेष्ठम् विनयेन ववन्दिरे तदस्तानागदान् दृष्ट्वा मुनीन् भृगु कुलोद्वहः अर्क्यपाद्यादिभिः सम्यक् पूजयामस सादरं तनासीनान्कृतातिथ्यानुवाज भृगुनन्दनः स्वागतं वो महाभागा यदर्थमिह चागदः यद्वदध्वम् भुविष्टास्था करणीयं मयास्ति यद् तद् भ्रुवन्मुनिश्रेष्ठा यदर्थं राममागदाः अवेह्यस्मान् भृगुश्रेष्ठगोकर्णनिलयान्मुनिन् कनद्भिस्सागरैर्भूमिं तस्मात् तीर्थाद्विवासिदान् सत्त्वमात्मप्रभावेण क्षेत्रप्रवरमद्यनः धातुमर्हति विप्रेन्द्रसमुत्साह्यार्णवोदकम् तत्कृत्वा वचनं तेषाम् न्यस्तशस्त्रो व्यचिन्तयद ततो विचिन्त्य भगवान् धर्म्यम् साध्वभिरक्षणम् प्रगृह्य स्वधनुर्बाणान् सम्प्रतस्ते सतैसमं तैः समं सोवरुह्य महेन्द्राद्रेर्दिशम् दक्षिणपश्चिमाम् समुद्दिश्य ययशीघ्रम् स स्वमुल्लङ्घ्यपर्वतं सम्प्राप्तः सागरतटं सार्धं गोकर्णवासिभिः मुहोक्तम् तत्र विश्रम्य वरुणं व्याधः मेखगम्भीरया वाचा प्रोवाच वदताम्बरः रामोऽहं भार्गव प्राप्तो मुनिभिः सह प्रचेतो दर्शनं देहि कार्यमात्यायिकं ये त्वया एवं रामसमाहूतो याधपदिरहन्तया श्रुत्वापि तस्य तद्वाक्यं नायादो रामसन्निधौ एवम् पुनः पुनस्तेन समाहूतो विनागदः यदा तदाभिसंवृद्धो भार्गवः तस्मिन् सन्धाय विशिखम् वह्नि दैवम् दुभार्गवम् अस्त्रम् संयोजयामास शोषणाय सरित्पदेहे तस्मिन् संयोजितेऽस्त्रे दुर् भार्गवेण महात्मना संक्षुद्धः सागरो भद्रे यादोगणसमाकुलः वरुणोऽस्त्राभिः सन्तप्तो रामस्य भयसम्प्लुदः स्वरूपेण समागत्य रामपादौ समग्रगीद ततोऽस्त्रं सविनिर्वर्त्य वरुणं प्राकशत्वरं गोकर्णो देव उत्सर्पय जलं किल ततो रामोऽपिदम् समभ्यर्च्य गोकर्णम् नाम शङ्करम् प्राप्त पुनर्महेन्द्राद्रौ तस्तु तत्रैव ते द्विजाः यत्र सर्वे तपस्तत्वा मुनयशंसितव्रताः निर्वाणम् परमप्राप्त पुनरावृत्तिवर्जितम् तत्क्षेत्रस्य प्रभावेण प्रीत्या भूतगणैशः देव्या च सकलैर्देवैर्नित्यं वसति शङ्करः येनांसि दर्शनात् तस्य गोकर्णस्य महे सिधुः सद्यो वियुज्य गच्छन्ति प्रवादे शुष्ककर्णवद तत्क्षेत्रसेवनरधिर्नृणां जादु न जायते निर्बन्धेन तु ये तत्र प्राणिन स्थिरजङ्गमाः म्रियन्ते देवि सद्यस्ते स्वर्गं सनातनम् स्मृतापि सकलैः पापैर्यस्य मुच्येदमानवः तद्गोकर्णाभिधं क्षेत्रं सर्वतीर्थनिकेतनं स्नात्वा क्षेत्रेषु सर्वेषु यजं तश्च सदाशिवं लभन्ते यद्फलम् मर्त्यास्तत्सर्वं तत्र दर्शनात् कामक्रोधादिभिर्हीना ये तत्र निवसन्ति वै अचिरेणैव कालेन ते सिद्धिं प्राप्नुवन्ति हि जपहोम यदा ब्रह्मचारिणः वसन्ति तस्मिन्नेते तस्मिन्ेते हि सिद्धिं प्राप्स्यन्त्यभीप्सितां दानहोम जपाद्यं च पितृदेव द्विजार्चनम् अन्यस्मात् कोटिगुणिदम् भवेत्तस्मिन् फलं सदि इत्येतत् कथिदम् भद्रे गोकर्णक्षेत्रसम्भवम् माहात्म्यम् सर्वपापघ्नम् पठताम् शृणुतामपि इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वस्तु मोहिनीसंवादे गोकर्णमासात्म्यम् नाम चतुस्सप्ततितमोऽध्यायः इति गोकर्णमाहात्म्यम् ओम्